अथ चतुश्चत्वारिंशः सर्गः सन्दिष्टो राक्षसेन्द्रेण प्रहस्तस्य सुतो बली जम्बुमाली महादं श्रो निर्जगामधनुर्धरः रक्तमाल्याम्बरधरः महान् विवृत्तनयनश्चण्डः समरदुर्जयः धनुश्शक्रधनुःप्रख्यम् महद्रुचिरसायकम् विस्फारयाणो वेगेन वज्राशनि समस्वनं तस्य विस्फारघोषेण धनुषो महता दिशः प्रदिशश्च न भश्चैव सहसा समपूर्यत रथेन खरयुक्तेन तमागतमुदीक्ष्य सः हनूमान् वेगसम्पन्नो जहर्षचलनाद च तन्तोरणविटङ्कस्थं महाकपिम् जम्बुमाली महातेजा विव्याधनिशितैश्वरैः अर्धचन्द्रेण वदने शिरस्येकेन कर्णिना बाह्वोर्विव्याध नाराजैर्दशभिस्तुकपीश्वरम् तस्य तच्छुशुभे ताम्रं शरेणाभिहतं मुखम् शरदिवाम्बुजम्फुल्लम् विद्धम् भास्करश्मिना तत्तस्य रक्तम् रक्तेन रञ्जितम् शुशुभे मुखम् यथाकाशे महापद्मम् सिक्तं काञ्चन बिन्दुभिः चुकोपबाणाभिहतो राक्षसस्य महाकपिः ततः पार्श्वेति विपुलाम् ददर्श महतीम् शिलाम् तरसा ताम् समुत्पाट्य चिक्षेपजपवद्बली ताम् शरैर्दशभिः रा क्रुद्धस्ताडयामास राक्षसः विपन्नम् कर्म तद्दृष्ट्वा हनूमांश्चण्डविक्रमः सालम् विपुलमुत्पाट्य भ्रामयामासवीर्यवान् भ्रामयम् तम् कपिम् दृष्ट्वा सालवृक्षम् महाबलम् चिक्षेपसु बहून् बाणाम् जम्बुमाली महाबलः सालम् चतुर्भिश्चिच्छेद वा नरम् पञ्चभिर्भुजे पुरस्येकेन बाणेन दशभिस्तुस्तनान्तरे सशरैः पूरिततनुः क्रोधे न महता तमेव परिघम् गृह्य भ्रामयामास अति वेगितः अतिवेगोऽतिवेगेन भ्रामयित्वा बलोत्कटः परिघम् पातयामास जम्बुमालेर्महोरसि तस्य चैव शिरो नास्ति न बाहुजानुनी न च न धनुर्नरथो नाश्वास्तत्रा सहतस्तरसातेन जम्बुमाली महारथः पपातनिहतो भूमौ चूर्णिताङ्ग इव द्रुमः जम्बुमालिम् सुनिहतम् किङ्करांश्च महाबलान् चुक्रोधरावणः निहते महाबले अमात्यपुत्रा नतिवीर्य इत्यादर्शे श्रीमद् वाल्मीकिये वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे चतुश्चत्वारिंशत् सर्गः